भागवत महापुराणं दसंस्कन्ध अथ दशमोऽध्यायः यम्लार्जुन का उद्धार राजोवाच कथ्यतां भगवन्नेतत्तयोशापयस्य कारणं यद्यद्विगर्हितं कर्म येन वादेवरसे स्तमः शेषोकुवाच रुद्रस्यानुचरो भूत्वा सुदृप्तौ धनदात्मजौ कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ वारिणिं मदिरां पित्वा मदाघुर्णितलोचनौ श्रीजनैरनुगायद्भे चैरतु पुष्पते वने अन्तः प्रविश्य गङ्गायाम् अम्भोजवनराजिने चिक्रीडतुर्यवतिर्भिर्गजाभिवकरेणुभिम् यदीक्षया च देवरसी भगवान् सत्रकौरव अपश्यन्नारदो देवौ श्रीबाणौ समुबुध्यत तं दृष्ट्वा पीडिता देव्यो विवस्त्रा सापशङ्किताः वासांसि परिधुशीघ्रं निवस्त्रौ नैव गुह्यकौ तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ तयोरनुग्रहार्थाय शापं दास्यन्निदं जगौ नारदुवाच न्याशन्योजसुतो यो स्यान्बुद्धिभ्रंसो रजो गुणः श्रीमदाभिजात्यादि यत्र स्त्रीदूतमासवः धन्यन्ते पशौ यत्र निर्दयैरचितात्मभि नन्यमानैरिमं देहम् अजिरामृद्धिनश्वरं देवसङ्गितमप्यन्ते कृमेवेडभत्मसङ्गीतं भुद्धृक्तत्कृते स्वार्थं किं वेद निर्योयतः देह किमन्नदातु स्वं निषेक्तुर्मातुरेव च मातुः पितुर्वा बलिना क्रेतुरग्नेशुनोऽपि वा एवं साधारणं देहं अव्यक्त प्रभुवाप्यम् को विद्वानात्मसात्कृत्वा हन्ति जन्तो नृते सतः असतः श्रीमदान्धस्य दारिद्र्यं परमञ्जनम् आत्मौपम्येन भूतानि दरिद्रपरमीक्षते यथा कण्टकविद्वाङ्गों जन्तोर्णेक्षति तां यथाम् जीवसाम्यं गतो निर्गैर्लिङ्गेन तथा विद्धकण्टकः दरिद्रो निर्हंस्तम्भो मुक्त सर्वमदैरिह। तीर्थं यदिथ्य आप्नोति तद्धितस्य परं तपः नित्यं चिच्छाम देहस्य दरिद्रस्यान्नकाङ्क्षिणः निन्द्रियाण्यनुसुष्यन्ति हिंसापि विनिवर्तते दरिद्रस्यैव युज्यन्ते साधवसमदर्शिनः सद्भिक्षुणोचतं तर्शं तद आराध्य शुध्यते साधूनां समुचित्तानां मुकुन्दचरणेषुनाम् उपेक्षै किं धनस्तम्भये असद्भिरसदाश्रयै तदहं मद्ययोर्माद्भ्यां दारुण्या श्रीमदान्धयोः तमो मदं हरिष्यामि श्रेणयोरजितात्मनोः यदि मम लोकपालस्य पुत्रो भूत्वा तमपृतौ न विवाससमात्मानं विजानीत सुदुर्मदौ नतोर्हतस्थावर्तां स्यातां देवं यथा पुनः मृतीन्मत्प्रसादेन तत्रापि मदनुग्रहात् दासुदेवस्य सान्निध्यं लभ्यादिव्यसे नित्तेश्वर्लोकताम् भूयो लब्धभक्तिर्भविष्यतः